मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं सिक्स् प्रकृतिपुरुषवरप्रधानं श्रीगणेशाय नमः शौनक उवाच पार्वदीशिवसंवादं, कथयस्वमहामदे पाराश्चर्यस्य सर्वज्ञ शिष्यसर्वार्थतत्त्वविद सुत उवाच मुद्गलेन यथा प्रोक्तं दक्षे वै शान्तिकारकं शिवयोस्तं च संजातं संवादं कथयामि भोः श्रीशिव उवाच धन्यादेवीमहाभागे त्वत्सामान्यान विद्यते महापुण्यन ते बुद्धिगणेशानलालसा नात्र संशय ममद वेदं गाण पथ्य पत्यप्रिया गृह गणेशा नमकृत्वा कथया कथानक आदौ मायामयं विद्धि मायातीदं ततः परं स्वस्वरूपमयं सर्वं ज्ञातव्यं योगिना सदा द्विविद्धं योगमार्गेण साधनेन विशेषतः आदौ ब्रह्मस्थितं देवि एकानेकादिवर्जितं स्वधः परद उत्थानात् तदेव द्विविधं बभव। स्वद उद्धानकेनैव विकल्पः सदृशकृतः अहमस्मिति भावेन बिम्बं भिन्नं विनिसृतं सकलाभेदरूपं यन्निराकारं स्वभावदः अहमस्मि सदा प्रोक्तं ब्रह्मरूपं च शाश्वतं केनापि स्वस्वरूपं तद्धृष्टमात्मात्मकं परं कीदृश्योऽहं विकल्पश्च कृतो मोहेन तत्क्षणात् चतुश्चदुपदार्था ये योगरूपेण संस्थिताः तेषामभेदरूपं च दृष्टं सर्वात्मकं परं मायया बिम्बरूपोऽयं जादसद्यश्च नामधः मायाबिम्बं त्वदीयं तत्तत्र मोहप्रधारणात् मोहधारणमात्रेण विस्मृतं स्वस्वरूपकं माया सु खयेप्सुना जादा तस्य देवस्य तत्क्षणात् सर्वाकारा निराकार मायाजादा द्विधा परा बुद्धिरूपा महाभागा तया सर्वं प्रबुध्यते निराकारं च साकारं बुद्धया सम्बुध्यते जनैः बुद्धया यदुते क्षेत्रबुद्धि तदव तोहोच साकारो निराकार स्वयं प्रभु मोहन यदि भ्रांतिर्विधा गुणसमुद्धिता सिद्धिर्मोहकर्ना भ्रांति प्रकाशिका एका बुद्धिश्च सर्वत्र तथा द्वैथे प्रवर्तिता सिद्ध्या सम्मोहिता बुद्धिर्भ्रान्ता जाता च पार्वती साकारमोहसंयुक्ता निराकारविमोहिता मोहधारकबुद्धिश्च सिद्धिर्मोहप्रदायिनी तयो प्रकाशदास गणेशानो भवत् स्वयं स एव नामतस्तत्र नगदो निजरूपदृकबिम्बबिम्बिप्रभावत्वाद् भसते तादृशो वृथा सर्वात्मकं च बिम्बं यत्परं तत्रैव बिम्बितम् आत्मरूपं निराकारं तयोः संयोगितां गतः स एव गणराजोऽयं मायाखेलकरः प्रभुः तस्येच्छया तद्विविधं चलति त्रिविधं चैकभावं च जातं मोहेन पार्वती विकल्पप्रकृतस्थेन एकोकं स्यां बहुस्त्विति विकल्पेन द्विधा भूतं देहदेहिस्वरूपकं सोऽहं ब्रह्मेदि यत्प्रोक्तं वेदवै वेदवादिभिः तदेव च देहमोहप्रवारणाद देहरूपं तथा तत्र बिन्दुमात्रं प्रगीर्हितं चतुर्विधानां देहानां ब्रह्मरूपं पुरातनं बहुरूपं च तद्विद्धि देहकैवल्यसंज्ञैकरूपं यद्बहुरूपं च बिन्दुमत् स्वस्वकार्येषु नो सत्ताहीनतया शिवे ताभ्यां तभकृतं घोरं स्वस्वरूपस्य सुन्दरि दिव्यवर्षसहस्रान्धे प्रसन्नोऽभूद्गजाननः प्रत्यक्षतां ययौ तत्र शुण्डादण्डविराजितः लम्बोदरो महाकर्णश्च दुर्बाहुस्त्रिनेत्रभृत तस्य दर्शनमात्रेण स्फूर्तिर्जादातयोस्तदा तया तौ समाबुध्य नतौ स्तोत्रं प्रचक्रतुः प्रकृतिपुरुषावोचतुः नमस्ते गणनाथाय स्वसंवेद्यमयायते निराकारस्वरूपा वैशुण्ठा यस्य विराजते यस्य देहश्च साकारखण्डाधः परिकथ्यते अभेदयेतयोर्जातस्तेन त्वं वै गजानन चतुर्विधं निजानन्दाद्वेदेषु कथितं भवेद एकमव्यक्तरूपं च द्वितीय समरूपकं तृतीयं सत्स्वरूपं च चतुर्थं यत्सदा्यसद चतुर्हस्तस्वरूपं ते तेन त्वं वै चतुर्भुजः तवोदरे तेन लम्बोदरस्मृतः मायामायिकरूपं च द्वौ पादौ द्विविधं च ते ये ते सर्वे गणाढुण्ढे त्वदीयानात्र संशयः गणनाथोऽसि तेन सर्वदा निजात्मासा दृशो निज सावोध्यान आबभ स्व संवेदतयाध्याद भक्ताग्रहकता भक्ता दे्यभू येतक्षणु गणेशो नामधारकः धन्यं सर्वं कृतं स्वामिन् येन त्वं देहवानभूः स्वानन्दवासभृत्साक्षात्कृति नित्यं स्थिरो नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे भक्तानां वैह्यभक्तानां विघ्नकर्त्रे नमोऽस्तु ते कर्मणां फलदात्रे च ज्ञानानां सिद्धिदायिने अमे यशक्रये तुभ्यं सर्वाधाराय ते नमः किं कर्तव्यं दयासिन्धो तदेवाज्ञापयप्रभो तव भक्तिं महातीव्रां देहि नौ गणनायक एवं स्तुतिं समाकर्ण्य परितुष्ठो गणाधिपः मेखगम्भीरया वाचा श्री श्रीगणेश उवाच साधु साधु महाभागौ यदुक्तं स्तोत्रमुत्तमं मम प्रीतिकरं सर्वकामदं प्रभविष्यति धर्मार्थ काममोक्षाणादायकं पुष्टिवर्धनं कारागृहस्थितानां च मोचकं लक्षपाठतः मारणोच्चाटनादीनां नाशकं तत्तथैव च एकविंशतिवारं यः पठेतु यदि वैभक् स ईप्सितफलं लभेद ब्रह्म भूयकरं चैदन्निष्काम पठनाद् भवेद भवतोस्तपसातुष्टस्तोत्रेणानेन भवतः प्रीदो दास्यामि सम्पूर्णं भवद्भ्यामीप्सितं च बिन्दुमात्रस्वरूपेण यस्थितं ब्रह्मशाश्वतं तस्माच्चतुर्विधं विश्वं प्रकटं सम्भविष्यति प्रकर्षेण च सर्वेषां कृतिस्तस्माद्विनिःसृता प्रकृतिस्तेन ते नाम भविष्यति जनेष्विदं सृष्ट्वा चतुर्विधं विश्वं बन्धहीना भविष्यसि मदीयां भक्त्रिमचलां प्रकृते प्राप्स्यसि ध्रुवं जनास्त्वदीयभक्तिं ये करिष्यन्ति सकामतः निष्कामतश्च तेभ्यस्त्वं सर्वं दास्यसि शोभने चतुर्विधेऽप्ययं चेदे पुरे तेनैव पुरुषः सोऽहं भावी नाम्ना सर्वत्र तिष्ठतु सर्वाकारविहीनोऽयं तत्र भ्रान्तो भविष्यति बिम्बबिम्बितभावेन प्रकृतौ मोहितः स्वयं मोहविहीनः सोऽहं मात्रात्मकः सदा मत्प्रसादाद्भवेन्नित्यं ब्रह्मसोहं सुखात्मकः मदीया भक्तिरचला भविष्यति तवापि तया बन्धविहीनस्त्वं तथा मान्यो भविष्यसि तव भक्तिं करिष्यन्ति जनाभावेन संयुताः तेभ्यस्तदीप्सितं सर्वं दास्यसि त्वं न संशयः ब्रह्मभूयपदं चैव दास्यसे योगसेवया साक्षात् पुरुषरूपस्त्वं सत्तात्मको भव प्रकृतौ वीर्यमाधत्स्व सर्वसत्तात्मकं विभो तेनेयं सर्वसूर्विश्वं सृजिष्यति न संशयः सृष्ट्वा च सर्वं पालनं करणं तथा कर्तव्यं कलयोगेन करणीयमिदं स्मृतम् सर्वेषां प्रकृतिर्मादापिता पुरुष उच्यते नानारूपाणि नामानि कल्पयिष्यन्ति वै जनाः इत्युक्त्वा गणराजस्तु तत्रैवान्तरधीयत प्रकृतिपुरुषश्चैव यथा ज्ञतौ प्रचक्रदुः ॐ तत्सदिश्रीमदान्ध्ये पुराणोपनिषद्दिश्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते प्रकृतिपुरुषवरप्रधानं नाम षष्ठोऽध्यायः ॐ